बुद्धिवृद्धिमन्त्रं ते वर्धन्ता खनं केन् बि स्टाण्डर्ड् एनि डे एनि टैम् ते वर्धन्ता वर्धन्त तेदे वर्धन्तस्वतवसस्वतवसो वर्धन्त ते सोदा सोदा ते वर्धन्तस्वतवसः अवर्धन्तस्वतवस्व स्वतवसो वर्धन्ता वर्धन्तस्वतवसो महित्वना महित्वनस्वतवसो वर्धन्ता वर्धन्तस्वतवसो महित्वना स्वतवसो महित्वना महित्वन स्वतवसस्वतवसो महित्वना नाकन्नाकमा महित्वना स्वतवश स्वतवसो महित्वना नाकम् स्वतवस इति स्व तवसः महित्वना नाकन्नाकमा महित्वन महित्वन नागन्तस्तुस्तस्तुर्नागमा महित्वना महित्वनागन्तस्तुः महित्वनेदि महित्वना आ नाकन्नाकमानाकन्तस्तुस् नाकन्तस्तुस्तुर्नाकन्नाकन्तस्तु रुरु तस्तु रुरुतस्तुस्तस्तुरुचक्रिरे चक्रि उरु तस्तुस्तरुचक्रिरे उरुचक्रिरे चक्रेर उरुचक्रिरे सद सदश्चक्रेर उरुचक्रिरे सदः चक्रेरे सद सदश्चक्रेरे चक्रेरे सदः सद इति सदः विष्णोर् यद्यद्विष्णोर्विष्णोर्यद्यः यद्विष्णोर्विष्णोर्यद्ध यद्धः यद्यद्धाव धावध यद्य धावद हाव धावद्ध हावद् वृषण वृषणमावद्ध हावद्वृषणम् आवद्वृषणं वृषणमाव धावद्वृषणम् मदच्युदं मदच्युधं वृषण माव दावद्वृषणं मदच्युतं वृषणं मदच्युदं मदच्युतं वृषणं वृषणं मदच्युदं वयो वयो मदच्युदं वृषणं वृषणं मदच्युदं वयः मदच्युदं वयो वयो मदच्युदम् मदच्युदं वयो नन वयो मदच्युतं मदच्युदं वयोन मदच्युदमिति मदच्युतं वयो नन वयो वयोन सीधन् सीदन् वयो वयो न सीदन् न सीधन् ीदन्नन सीदन्नधि सीदन्नध्यधि श्रीदन् सीदन्नधि बर्हिषि बर्हिष्यधि श्रीदन् सीदन्नधि बर्हिषि अधि बर्हिषि बर्हिष्यध्यधि बर्हिषि प्रिये प्रिये बर्हिष्यध्यधि बर्हिषि प्रिये बर्हिषि प्रिये प्रिये बर्हिषि बर्हिषि प्रिये प्रिय इदि प्रिये प्रचित्रञ्चित्रं प्रचित्रमर्कमर्कञ्चित्रं प्रचित्रमर्कं चित्रमर्कमर्कं चित्रं चित्रमर्कं गृणदे गृणदे अर्कञ्चित्रञ्चित्रमर्कं गृणदे ardang grana de grana de arkamarkam grana de turaya turaya grana de arkamarkam grana de turaya grana de turaya turaya grana de grana de turaya मारुताय मारुताय तुय गृणदे गृणदे तुराय मारुताय तुराय मारुताय मारुताय तुय तुराय मारु ताय स्वतवस्य स्वतवस्य मारुताय तुय तुराय मारु ताय स्वतवसे मारु य स्वदवस्य स्वधवस्ये मारुताय मारुताय स्वदवस्ये भरध्वं भरध्वगुं स्वदवस्ये मारुताय स्वदवसे भरध्वं स्वदवस्य भरध्वं भरध्वगुं स्वदवस्य स्वदवस्य भरध्वं स्वदवस इति रध्वमिति भरध्वं ये सहागुंसि सहा गुंसि ये सहा गुंसि सहसा सहसा सहा गुंसि ये सहा गुंसि सहसा सहा गुंसि सहसा सहसा सहा गुंसि सहसा सहन्दे सहन्दे सहसा सह विंसि सह विंसि सहसा सहन्दे सहसा सहन्दे सहन्दे सहसा सहसा सहन्दे रजते रजते सहन्दे सहसा सहसा सहन्दे रजते सहते रजते रजते सहते सहते रजते अग्नि अग्नि रजते सहंते सहते रजते अग्नि रजते अग्नेग्नेजते रजते अग्नेृथिवी पृथिवी अग्ने अग्नेजते रजते अग्नेृथिवी अग्नेृथिवी पृथिव्याग्ने अग्ने पृथिवी माकेभ्यो माकेभ्यः पृथिव्याग्ने अग्ने प्रथिवी माकेभ्यः पृथिवी माघेभ्यो माघेभ्य पृथिवी प्रथिवी माखेभ्यः माखेभ्य इदि माकेभ्यः विश्वे देवा देवा विश्वे विश्वे देवा विश्वे विश्वे देवा विश्वे विश्वे देवा विश्वे ए देवा विश्वे देवा देवा विश्वे देवा देवा विश्वे देवा देवा विश्वे देवा देवा विश्वे विश्वे देवाहा देवा इति देवाहा देवा वाक्यं ते वर्धन्त वर्धन्तस्वतवसो महित्वनानाकन्तस्तु रुरुचक्रिरे सदः विष्णोर्यद्धावद्वृषणम् मदच्युदं वयो न सीदन्नधिबर्हिषिप्रिये प्रचित्रमर्कं गृणदे तुराय मारुताय स्वतवसे भरध्वं ये सहा गृंसि सहसा सहन्ते रजदे अग्ने पृथिवी मघेभ्यः विश्वे देवा विश्वे देवाः Oh